भीम उवाच परो राजा वल्मीक इव सीदति दुर्बलश्चानुपायेन बलिनम् योधि तिष्ठति अतन्द्रितश्च प्रायेण दुर्बलो बलिनम् रिपुम् जयेत् सम्यक्प्रयोगेण नित्यार्थानात्मनोहितान् कृष्णेन यो मयि बलम् जयः पार्थे धनञ्जये मागधम् साधयिष्यामा त्वद्बुद्धिबलमाश्रित्य सर्वम् प्राप्स्यति धर्मराट् जयोऽस्माकम् हि गोविन्द येषां नाथो भवान् सदा कृष्ण उवाच अर्था नारभते बालो नानुबन्धमवेक्षते तस्मादरिम् न मृष्यन्ति बालमर्थपरायणम् जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः कार्तवीर्यस्तपो भरतो विभुः साम्राज्यमिच्छतस्तेतो सर्वाकार निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनय लक्षणैः बर्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभा रत्नभाजो हि राजानो जरासन्धमुपासते न च तुष्यति तेनापि बाल्यादनयमास्थितः मूर्धाभिषिक्तम् नृपतिम् प्रधानपुरुषो बलात् आदत्ते न च दृष्टो भागः क्वचित्